संहितापाठम् प्रादर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता आद्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह प्रादर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता आभ्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह प्रादर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता आद्भ्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह